अष्टाशीतिसहस्राणि ऋषीणामुर्ध्वरेतसाम् प्रजावताम् च पञ्चाशदृषीणामपि पाण्डव ते स्म तत्र यथा कामम् दृष्ट्वा सर्वे दिवौकसः प्रणम्य शिरसा तस्मै सर्वे यान्ति यथा गतम् देवान् दैत्यान्नागांस्तथा द्विजान् यक्षान् सुपर्णान् काले यान् महाभागानमिद्दधीः ब्रह्मालोक पितामहः दयावान् सर्वभूतेषु यथार्हम् प्रतिपद्यते प्रतिगृह्यतु विश्वात्मा स्वयम्भूरमि तद्युतिः सान्त्वमानार्थसम्भोगैर्युनक्तिमनुजाधिप तथा तैरुपयातैश्च प्रतियद्भिश्च भारता आकुला सभाताता भवति सुखप्रदा सर्वतेजोमयी दिव्या ब्रह्मर्षिगणसेविता ब्राह्म्या श्रिया दीप्यमाना शुशुभे विगतक्लमा सा दृष्टा मया लोकेषु दुर्लभा सभेयं राजशार्दोला मनुष्येषु यथातवा एता मया दृष्टपूर्वाः सभा देवेषु भारता सभेयं मानुषे लोके सर्वश्रेष्ठतमादवा इति श्रीमहाभारते सभापर्वणि लोकपालसभाख्यानपर्वणि ब्रह्मसभावर्णनं नाम एकादशोऽध्यायः